अथ प्रथमोऽध्यायस्य द्वितीयः पादः नाङ्कुतानिर्भे विजयै विभाषणोः सारधातुकामपि असञानीर्त्ये इन्द्रि भवतिभ्याम् च मेल मेलघोषोष एष वाचवसात्वा ृदविदमुषि सपि गच्छ सन् च इको धरन्ताच्च विंसि चावात्मनेपदेषु पुश्च वागमः अनाहसि यमो बन्धने विवाशोपयने साभोरि च न नक्तासे निष्ठाशीं श्रीमि मृषस्त्रिक्षायाम् मृषास्त्रीक्षायाम् उपदाद्भावादिकर्मणोरन्यतरश्च उात्वा च नोपदार्थपान्ताद्वा वञ्चि वञ्चिणश्च नृष नृषि कृषयः काश्यपश्चादे तंसा बीच में जब सूत्र स्खन होते हैं तब उसको परस्पर संबंध जोड़ते हुए भी इसकी आवृत्ति करनी चाहिए ताकि आवृत्ति करते समय यदि वही सूत्र छूता है इसलिए पंच पंच पर नाम करते हैं उन पंचकों में इतनी आवृति करने की विधि से वहां पंचक ठीक हो जाते वो इस प्रकार आवृतियां करके समाप्ति कर इस प्रकार ही हो जाती है हां मन बनाने की लिए, अपने मन को वश में करने की आवश्यकता है तो आइए नमूने के रूप में फिर हम इसे दूसरे काल के इक्कीसवें सूत्र से, से एक आवृत्ति का नमूना करते हैं उदुपार भारी कर मनोरंत उदुपधानुभावादि कर्मणोरण्यतरस्याम् ओङ्ाष्ट्वाचा नोपधाल् भावादि कर्मणोरण्यतरस्याम् ओङ्गात्वाच नोपधान्ता उन्वस्त्वा च उदुपधा वञ्चि लुञ्चि नरश्च त्रिषीम् ऋषिकृषे काश्यपस्य ऊङ्गा त्वाच नोपदाथवान्ताल्वा वञ्चि लुञ्चिर्डरस्य त्रीशीं ऋषिकृषे काश्यपस्य ऊङ्गलाद्भावानि कर्मणोरण्यदस्याम् ऊङ्गा त्वाच नोपधाथवान्ताल्वा मञ्च लुञ्चल्यश्च ऋषिं नृषिकृषे काश्यपस्य मृषस्तदीक्षायाम् उनुपधावादि परमणोरन्यस्याम् उङ्गाका च नोपदातवान्ताल्वा मनुजरुञ्चलिनश्च त्रिषीं ऋषि काश्य इस प्रकार कल्चर को थोड़े थोड़ी आवृत्ति करके आवृत्ति करने का अभ्यास करना चाहिए इन पांच सूत्रों में यदि कोई सूत्र छूटता है तो परस्पर पर जोड़ते हुए इसी प्रकार हर क्षेत्र में तैयारी करने से वो दृढ़ होते चले जाते हैं और हरित सूत्र दिखनेगा जो हम दूर करें कृषि कृषि कृषे काश्यपदस्य रोलोपधादेश उहालो झलस्व दीघकृतः रोलोपधारादेश ऊकालो झस्व दीर्घकृतः अचलश्च उकालो झस्व दीर्घकृतः अचलश्च उच्चैरुदात्तः अजश्च उच्चैरुदात्तः नीचैरम् दातः नीचैरम् दातः उच्चैरुदात्तः नीचैरम् दात्तः उ अस उच्चैरुदात्तः नीतैरम् दातः उकालो ध्रष्टकृतः अजस्र ै दात्तः नीचैरम् दात्तः झलो विपराधलादे संस ऊकालो धस् एककृतः पचश्च उच्चैर्दात्तः नीचैरं दात्तः झटो प्रजाधलादे संस नीचैरम् दातः समाहारः स्वरितः नीचैरम् दार्तः समाहार चरितः समाहारः स्वरितः नीचैरन्दात्तः समाहारः स्वरितः नीचैरन्दात्तः समाहारासरितः नीचैरङ्गात्तः समाहारासरितः तस्यादित उदात्त माधरस्वम् तस्यादित उदात्तमर्धरस्वम् कस्यादिद उदात्ता मर्दह्रस्वम् तस्यादिद उदात्ता मर्दहरादिर्निदात्त मधरस्वम् उदात्ता मर्दह्रस्वम् उदात्त उदात्त उदात्त मार्दरस्वम् मार्धरस्वम् तस्यादित उदात्त तस्यादित उदात्ता मर्धरस्वम् उदात्त मार्धरस्व तस्यादित उदात्ता मर्धरस्व तस्यादिक उदात्त मर्धरस्वदात्त मदरसनि तस्यादितौ दात्तमधः स्वम् समाहारः स्वरितः तस्यादितौ दात्तमधस्वम् एकश्रुति दूरात् सम्बुद्धौ तस्यादितौ दत्तमध्रस्वम् एकश्रुतिदूरात् सम्बुद्धौ तस्यादितौदातमर्ध हरस्वम् एकश्रुतिदूरात् सम्बुद्धौ एकश्रुतिदूरात् सम्बुद्धौ एकश्रुतिदूरात् यज्ञ कर्मण्यजापन्यो खसामसो यज्ञ कर्मण्य जपन्यो खसामसो यज्ञ कर्मण्यजापान्यो खसामसो उच्चैस्तराम् वावषट्कारः यज्ञ कर्म जप न्यूसामसु उच्चैस्तरान् वावषट्कारः यज्ञ कर्म जपन्यूङ्खसामसु उच्चैस्तराम् वावसत्कारः यज्ञकर्मण्य जपन्यू सामसो युच्चैस्तराम् वावसत्कारः यज्ञ कर्मण्य यज्ञकर्मण्य जपन्यू सामसो यज्ञकर्मण्य जपूख सामसो यज्ञकर्मण्या यज्ञकर्मण्या जपन्यों खसामसु जपन्युं खसामसु यज्ञ कर्मण्य जपन्यो खसामसु यज्ञकर्मण्यजापन्यो खसामसु उच्चैस्तरां वावषट्कारः उच्चैस्तरां वावषट्कारः उच्चैस्तरां वावषट्कारः यज्ञ कर्मण्य जपन्युं खसामसु उच्चैस्तराम् वावषट्कारः यजपन्य उच्चैस्तराम् वावषट्कारा तस्यादित उदात्तमर्गस्वम् एकश्रुतिदूरात् सम्बुद्धौ यज्ञ कर्म जपन्यूखसामसो स्यादिदौ दातमर्धहरस्वम् एकश्रुति देवश्रुति एकश्रुति दूरा सम्बुद्धौ यज्ञ कर्मण्ड जप्यूख समसो उच्चैस्तराम् वावसत्कारः स्यादिदौ दात्तमधरस्वम् एकश्रुतिदूरा सम्बुद्धौ यज्ञ कर्मण्यपन्मुख सामसो उच्चैस्तराम् वावषत्कारः तस्यादितौ दात्तमर्धारस्वम् एकश्रुतिदूरात् सम्बुद्धौ यज्ञ कर्मण्य जपन्यमुख सामसो उच्चैस्तराम् वावषत्कारो विपदातकार भूकालो झ्रस्वदीर्घपुशः अजश्च उच्चैर्दात्तः निश्च समाहारः स्वरितः सत्यादितौ दात्तम् माध्रस्त्वम् एकश्रुदूरात् सम्बुद्धौ त्यज कर्मण्य जपन् मूखशामसु व्यपधा स्वदीर्घपुरितः अचश्च उच्चैरुदात्तः समाहारः सरितः तस्यादितौदात्तमर्ध्वम् एकश्रुतिदूरासम् बुद्धौ यज्ञ कर्मण्यजपयुङ्खसामसु ैस्तराम् वावसत्कारः जलो विदाेषन् च भूकालोद्रस्वदीर्घभूतः अचरश्च उच्चैरुदात्तः नीचैरनुदात्तः समारः सुरितः कस्यादित उदात्तमध हरस्वम् एकश्रुतिदूरा सम्बुद्धौ यज्ञ कर्मणि च पर्युः कामसु उच्चैताम् वावसत्कारा दृशस्तु शिक्षायाम् उदुपधावादिकर्मो दर्शनस्याम् ऊकहत्वा च नोपधा समान्तार्वा वन्सिरिताश्च ृषपृशे काश्यपस्य रणधातलादे संस् कूकालो ह्रस्वदीर्घकृतः अचश्च उच्चैरुदात्तः चैरन्दात्तः समाहारः स्वरितः सस्यादित उदात्तमागृह्रस्वम् एकश्रुतिदूरात् सङ्गौ जापाक्षायाम् गुरुपदाभावादिकर्मणोरन्यतरस्याम् उङ्गात्वा च नोपदार्थपान्ताद्वा मञ्चिमुञ्चिरितैश्च ऋषि मृषि विषेकाश्रपश्च कलो युपदार्थनादेष्मश्च उकालो ज्रस्वदीर्घपुरुतः अजश्च उच्चैरुदात्तः नीचैरनुदात्तः समाहारास्वरितः तस्यादि तदात्तमर्ध ह्रस्वम् एकश्रुतिदूरात् सम्बुद्धौ यज्ञ कर्मण जपनिखसामसु न्दसि विभाषा छन्दसि विभाषा छन्दसि न सु ब्रह्मण्यायाम् स्वरितस्य पूतात्तः न सुब्रह्मण्यायाम् स्वरितस्य सूतात्ता न सुब्रह्मण्यायाम् स्वरितस्य तूदात्तः विभाषा छन्दसि स्वरितस्य तूदात्तः विभाषा छन्दसि स्वरितस्य तूदात्तः विभाषा चन्दते न सुब्रह्मण्यायाम् स्वैतस्य तुदात्तः देव ब्रह्मणो रन्दात्तः देवब्रह्मणो रङ्गात्तः देवब्रह्मणो रङ्गात्तः देवब्रह्मणो रङ्गात्तः न सुब्रह्मण्यायाम् स्वैतस्य तुदात्तः देवब्रह्मणो रन्दात्तः न सुब्रह्मण्यायाम् सरितस्य दूदात्तः देवब्रह्मणोणननुदात्तः देवब्रह्मणोरनुदात्तः विभाषा छन्दसि न सुब्रह्मण्यायाम् सरितस्य दूदात्तः देवब्रह्मणोरनुदात्तः विभाषा छन्दसि न सुब्रह्मण्यायाम् सरितस्य तुदात्तः देव ब्रह्मणोरनुदात्तः विभाषा छन्दसि न सुब्रह्मण्यायाम् स्वरितस्य कूतात्तः देवब्रह्मणोरनुदात्तः निभाषा छन्दसि न सुब्रह्म ब्रह्मण्यायाम् ब्रह्मण्यायाम् स्वरितस्य तूतात्तः देवब्रह्मणो लदात्तः स्वरितात्सहितायामनुदात्तानाम् विभाषा छन्दसि दशो ब्रह्मण्यायाम् स्वरितस्य तूदात्तः देवब्रह्मणोरनुदात्तः स्वरितात्सहितायामनुदात्तानाम् विभाषा छन्दसि दशु ब्रह्मण्यायाम् स्वरितस्य तूदात्तः देव ब्रह्मणोरनुदात्ता सरितासंहितायामनुदात्तानाम्दाहितायानुदानाम् देव ब्रह्मणोरनुदात्ता सरितासंहितायामनुदात्तानाम् देवब्रह्मणोरनुदात्ता सरितायाम् अनुदात्तानाम् स्वरितात् स्वरिता सरितायामनुदात्तानाम् सरितात् सहितायामनुदात्तानाम् सरितासहितायामनुदात्तानाम् देव ब्रह्मणो नत्ता सरिता सहिताया मनुदात्तानाम् जात स्वरितपदस्य सन्तलः देव ब्रह्मणोरणदाता चरितासंहितायाम् दातानाम् उदान्तरितपदस्य सन्तलः सुदाता देव ब्रह्मणोरनुदात्तः स्वरितात्सहितायामनुदात्ता उदारित परः सन्नतरः उदात्ता सरित परः सन्नतरः देवाशः सन्दसि न सो ब्रह्मण्यायाम् सन्तस्य पूदात्तः ेवनो दाता त्वरितासंस्थायामदात्तानाम् उदात्त त्वरितपरस्य संस्ता छन्दति दात्ता वरिष्टात्मनिषायामनुदात्ता समाहारः स्वल्पः स्यादितौ दात्रमानवत्वम् एव श्रुतिशीला सम्बुद्धौ यद्य क्रह्मण्यजपमुखसामसु सत्कारा विभाषा षडसि न तु ब्रह्मणायाम् स्वरितस्य पूदात्तः देवब्रह्मणो लात्तः श्वेतासहितायामनुदात्तानाम् उदात्त स्वरितपरस्य सन्नतरः समारा ता, सरितः तस्यादितमुदात्तमर्धारः सम् एकश्रुतिदूतात्सम् बुद्धौ यज्ञकर्मणजपाुन्तसामसु उच्चैतरान्वासत्कारा विभाषा चन्दसि न <laughs> सुब्रह्मण्यायाम् सरितस्य पूजात्तः देवब्रह्मणोरनुदात्तः सुरितासहितायामनुदात्तानाम् उदात्तसरितपरः सङ्गतरः विभाषा चन्दसि न सु न सुब्रह्मण्यायाम् स्वरितस्य तूदात्तः देवब्रह्मणोरनुदात्तः चरितासहितायामनुदात्तानाम् उदात्त उदात्त स्वरितपरस्य सन्नसरः कहोत् श्चि मृषि कृषे पायश्चे संस ऊकालो धृष्टीर्घ कृतः वचश्च उच्चैर्दात्तः नीचैरु दात्तः समाहारः जात स्वल्प तस्याधिकमर्तः श्रुतिभू सम्बुद्धौ यज्ञकर्मण्यजपामसु उच्चैस्तरावसत्कारः विवाषा छन्दसि न सुब्रह्मण्यायाम् स्वैकस्य पूपातः देवब्रह्म इपो जल् अलम् वाचा लिङ्सुजालात्मनि परेषु परेशु वा गमः अनासित् यमो बन्धने विभाषो पयमणि स्वाभोरिच्च ने मृष्ठाचीम् श्रुति मृदि श्रुतिक्षिषा मृषस्तिक्षायाम् उदू उदुमदानि कर्मणो रतरस्याम् उम्माक्त्वा च नोपदासपान्ता वञ्चलञ्चरितयश्च कृषिषि कृषे काश्यपश्चादेशंश्च कूलो हस्वदीर्घकृचयश्च उच्चैम् दात्ता नीचैरम् दाता समाहारस्वरिता तस्यादितौ दातमायासम् एकश्रुतिपूरा सम्बुद्धौ यस्य कर्मणि परिमुखसामसो उच्चैतराम् वावश्कारः विवादा छन्दसि न सुब्रह्मण्यायाम् सरितस्य उदात्तः देवब्रह्मणोरङ्गात्तः सरितासहितायामनुदात्तानाम् उदास्वश्रितपरः सन्नस्त